नारायणीयं दशकं ट्वेण्टि मीटर मीटर् वंशस्थम् अजामिलो नाम मही सुरःपुरा चरन् विभो धर्मपथान् गृहाश्रमी गुरोर्गिराकाननमेत्य दृष्टवान् सुधृष्टशीलां कुलडां स्वधप्रशान्तोऽपि तदा हृदाशयः स्वधर्ममुत्सृज्यतया समारमन् अधर्मकारी दशमी भवन् पुनर्दधौ भवन्नामयुधे सुते रतिं समृत्युकाले यमराजकिङ्करान् भयङ्करां पुरामना त्वत्स्मृतिवासना बलाद्युहावनारायणनामकं सुतम् दुराशयस्यापि तदात्वनिर्गतत्वदीयनामाक्षरमात्रवैभवाद पुरोभिपे दुर्भवदीय पार्षदाश्च दुर्भुजा पीतपदा अमुं च सम्पाष्य विकर्षतो भटान् विमुञ्चतेत्यारुदुर्बलादमी निवारितास्तेज भवज्जनैस्तदा तदीयपापम् निखिलं न्यवेदयन। भवन्तु पापानि कथम् तु निष्कृदे कृतेऽपि भोद्दण्डनमस्ति पण्डिताः निष्कृधि किं विदिदा भवादृश्यामिति प्रभो त्वत्पुरुषा बभाषिरे श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनन्दिपापन्नलुनन्दिवासनाम् अनन्दसेवादो निकृन्ददि द्वयीमिति प्रभो जन्म सहस्र भो जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृधिकृदा यदाग्रहि नाम भयाकुलो हरे हृदि प्रभो त्वत्पुरुषा बभाषिरे नृणामबुद्ध्यापि मुकुन्दकीर्तनन्दहत्य कौखान्महिमास्य तादृशः यथाग्निरधांसि यद्धौषधं गदानिधिप्रभोत्वत्पुरुषा बभाषिरे इदीरितैर्याम्य भटैरपासृदे भवद्भटानां च गणेतिरोहिते भवत् स्मृतिं कञ्चन कालमाचरन् भवत्पदं प्रापिभवत् भडैरसौ स्वकिङ्करावेदनसङ्गितो यमस्त्वदङ्घ्रिभक्तेषु न गम्यदामिधि स्वकीयभृत्यान शिशिक्षदुच्छकैः सदेव वादालयनाथ पाहि सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्दगोविन्द